सप्तविंशः सर्गः अभिषिक्ते सुग्रीवे प्रविष्टे वानरे गुहा आजगामसः भ्रात्रा रावः प्रस्रवणम् गिरिम् शार्दूलमृगसङ्घुष्टम् सिंहैर्भीमरवैर्वृतम् नालागुल्मलतागूढम् बहुपादपसङ्कुलम् रक्षवानरगो गोपुच्छैर्मार्जारैश्च निषेवितम् मेघराशिनिभम् शैलम् नित्यम् शुचिकरम् शिवम् तस्य शैलस्य शिखरे महती मायताम् गुहा प्रत्यगृह्णीतवासार्थम् रामः सौमित्रिणा सह कृत्वा च समयम् रामः सुग्रीवेणसहानघः कालयुक्तम् महद्वाक्यमुवाच रघुनन्दनः विनीतम् भ्रातरम् भ्राता लक्ष्मणम् लक्ष्मिवर्धनम् इयम् गिरिगुहारम्या विशाला युक्तमारुता अस्याम् मत्स्यामसौमित्रे वर्षरात्रमरिन्दमा गिरिशृङ्गमिदम् रम्यमुत्तमम् पार्थिवात्मजा नानाविहगसङ्घुष्टम् मयूरवरणादितम् मालतीकुन्दगुल्मैश्च सिन्धुवारैः शिरीषकैः कदम्बार्जुनसर्जैश्च पुष्पितैरुपशोभितम् इयम् चलिनीरम्या फुल्लपङ्कजमण्डिता नातिदूरे गुहाया नौ भविष्यति नृपात्मजा प्रागुदप्रवणे देशे गुहासाधु भविष्यति पश्चाच्चैवोन्नता सौम्यनिवातेयम् भविष्यति गुहाद्वारे च सौमित्रे शिला समतला शिवा कृष्णा चैवायता चैव भिन्नाञ्जनचयोपमा गिरिशृङ्गमिदम् तातपश्यचोत्तरतः शुभम् भिन्नाञ्जन च याकारमम्भोधरमिवोदितम् दक्षिणस्यामपि दिशि श्वेतमिवाम्बरम् कैलासशिखरप्रख्यम् नानाधातु विराजितम् प्राचीनवाहिनीम् चैव नदीम् भृशमकर्दमाम् गुहायाः परतः पश्यत्रिकूटे जाह्नवीमिव वानीरैस्तिमिदैश्चैव बकुलैः केतकैरपि किन्तालैस्तिनिषैर्नैपैर्वेतसैः कृतमालकैः तीरजैः श्वोभिताभादिनारूपैस्ततस्ततः वसनाभरणोपेता प्रमदेवाभ्यलङ्कृता शतशः पक्षिसङ्घैश्च नानानादविनादिता एकैकमणुरक्तैश्च चक्रवाकैरलङ्कृता पुलिनैरतिरम्यैश्च हंससारससेविता प्रहसन्त्येव भात्येषा नानारत्र समन्विता क्वचिन्नीलोत्पलैश्चन्नाभाति रक्तोत्पलैः क्वचित् क्वचिदाभाति शुक्लैश्च दिव्यैः कुमुदकुड्मलैः पारिप्लवशतैर्जुष्टा बर्हि क्रौञ्च विनादिता रमणीया नदीसौम्यमुनिसङ्घनिषेविता पश्यचन्दनवृक्षाणाम् पङ्क्तिः सुरुचिरा ककुभाना चुश्यंते मन सोदिता सम अहो सुरमणीय देश शत्रुषूदना दृढ़ं रंश्यासौ मि साधत्रहे इतनादूरे सा किंधा चिंत्रकानना सुग्रीवी रम्या भविष्य नृपात्मज गीतवादिघोषंरा नदताम् वानराणाम् च मृदङ्गाडम्बरैः सह लब्ध्वा भार्यान् प्राप्य राज्यम् सुहृद्वृतः ध्रुवम् नन्दति सुग्रीवः सम्प्राप्य महतीम् श्रियम् इत्युक्त्वा न्यवसत्तत्र राघवः सह लक्ष्मणः बहु कुञ्जे तस्मिन् प्रस्रवणे गिरौ सुसुखे हि तस्मिन् हि धरणीधरे वसतस्तस्य रामस्य रतिरल्पापि नाभवत् कृताम् विभार्याम् स्मरतः प्राणेभ्योऽपि गरीयसी उदयाभ्युजितम् दृष्ट्वा शशाङ्कञ्च विशेषतः आविवेशनतम् निद्रा निशा सुशयनम् तत्समुत्थेन शोकेन बाष्पोपहतचेतनम् तम् शोचमानम् काकुत्स्थम् नित्यम् शोकपरायणम् तुल्यदुःखोऽ ब्रवीद्भ्राता लक्ष्मणोऽनुनयम् वचः अलम् वीरव्यथाम् गत्वा न शोचतो ह्यवसीदन्ति सर्वार्थाविदितम् हि ते भवान् क्रियापरो लोके भवान् देवपरायणः आस्तिको धर्मशीलश्च व्यवसायी च राघव न ह्यव्यवसितः विशेषतः समर्थस्त्वम् रणे हन्तुम् विक्रमे जिह्मकारिणम् समुन्मूलय शोकम् तम् व्यवसायम् स्थिरीकुरु ततः सपरिवारम् तम् राक्षसम् हन्तुमर्हसि पृथिवीमपि काकुत्स्थससागरवनाचला परिवर्तयितुम् शक्तः किम् पुणस्तम् हिरावणम् शरत्कालम् ततः स राष्ट्रम् सगणम् रावणम् तम् वीर्यं अहम् तु खलु ते वीर्यम् प्रसोक्तम् प्रतिबोधये दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् लक्ष्मणस्य हि तद्वाक्यम् प्रतिपूज्य हितम् शुभम् राघवः सुहृदम् स्निग्धमिदम् वचनमब्रवीत् वाच्यम् स्निग्धेन च च नचा। सत्यविक्रमयुक्तेन तदुक्तम् लक्ष्मण त्वया एष शोकः परित्यक्तः सर्वकार्यावसादकः विक्रमेष्वप्रतिहतम् तेजः प्रोत्साहयाम्यहम् शरत्कालम् प्रतीक्षिष्ये स्थितोऽस्मिवचने तव सुग्रीवस्य नदीनाम् च प्रसादमनुपालयन् उपकारेण वीरस्त्वप्रतिकारेण युज्यते अकृतज्ञोऽ प्रतिकृतो हन्ति सत्त्ववताम् मनः तदेव युक्तम् प्रणिधाय लक्ष्मणः कृताञ्जलिस्तत्प्रति पूज्य भाषितम् उवाच रामम् स्वभिराम दर्शनम् प्रदर्शयम् दर्शनमात्मनः शुभम् यथोक्तमेतत्तव सर्वमीप्सितम् नरेन्द्र शरत् प्रतीक्षः क्षमतामिमम् भवान् जलप्रपातम् रिपुनिग्रहे धृतः नियम्य कोपम् परिपाल्यताम् शरत्क्षम स्वमासाम् चतुरोमया सह वसाचलेऽस्मिन् मृगराजसेविते संवर्तयन् समर्थः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये किष्किन्धाकाण्डे सप्तविंशः सर्गः